अथर्वेदे चतुर्थाष्टके प्रथमोऽध्यायः ॐ त्वामग्नेहविष्मन्तो देवम् अर्ता स ईलते मन्ये त्वा जातवेदसंसहव्यावक्ष्यानुषक् उतस्मयम् शिशुञ्यथा न भञ्जनिष्टारणी धर्तारम् मानुषीणाम् यामग्निम् स्वद्धरम् उतस्मदुर्गृभीयसे पुत्रो न हार्याणाम् पुरो यो दग्धा शिवनाग्नेः पशुर्नयवसे अधस्मयस्यार्चयः सम्यक् संयन्ति धूमिनाः महत्रितो यदीमह त्रितो दिव्युपध्माते पथव दिशिषीते ध्वातरी यथा तवाहमग्न ऊतिभिर्मित्रस्य दप्रशस्तिभिः देशो युतो न दुरिता दुर्यामर्त्यानाम् तन्नो अग्ने अभिनरो रजिंसहस्व आभर सक्षेपयत्सपोषयद्भुवद् सा राजस्य सातय उतैधिपृत्सुनो वृथे अग्ना भ्या भ्या प्रनो परेण सारत्सिवाजा राजापरेण सारत्सिवाजायपन्थान्न अग्ने अद्भुतक्रत्वादक्षस्य मम् हे असुर्या अमारुहत्क्राणामित्रो न यज्ञयाः त्वन्नो अग्न एषाङ्गयम् पुष्टिम् च ये स्तोमे एभिः प्रसूनयो मघान्या अमघान्यानशुः ये अग्ने चन्द्रते गिरः शुम्भन्त्यश्वराधसः शुष्मे एभिः शुष्मि णो नरो अवश्चिद्येषाम् बृहत्सुकीर्तिर्बोधदि त्मना तवत्ये अग्ने अर्चयो मध्यायन् योजन्ति धृष्णुजा परिज्ञमानो न रथो न वा नूनो अग्न सबाध सपाधसश्च रातये अस्माकाशश्च सूरजो विश्वा आशास्तरीषणि त्वन्नो अग्ने अङ्गिरस्तुतस्तवा न आभर होतर्विभ्वासहम् रयिं स्तोतृभ्यस्तव सेतन उतैधिभृत्सुनो वृधे जनस्य गोपा अजनिष्टजाग्रविरग्निः सुदक्षः सुभिता जलम् व्यसे घृतप्रतीको बृहतादिभिस्पृशाद्युमद्विभाति भरतेभ्यः शुचिः यज्ञस्य केतुम् प्रथमम् पुरोहितमग्निम् नरस्त्रिषधस्ते समीधिरे इन्द्रयेण देवैः सरथम् सपर्हि तन्निहोतायजथाय सुक्रतुः असंरष्टो जायसे मात्रोऽश्रुतिर्मन्द्रः कविरुदतिष्ठो विवस्वतः घृतेनत्वावर्धयन्नग्न आहुतधूमस्ते केतुरभवद्दिविश्रितः अग्निर्नो यज्ञमुपमेतुसाधुयाग्निम् नरो विभरन्ते गृहे गृहे अग्निर्दूतो अभवद्दव्यवाहनोऽग्निमृणामृणते कविक्रतुम् तुभ्येदमग्ने मधुमत्तमम् वचस्तुभ्यम् मनीषा इयमस्तुशम् हृदे ङ्गिरः सिन्धुमिपापनेर्महीरावृणन्ति शवसा वर्धयन्ति च त्वामग्ने अङ्गिरसो गुहाहितमन्दमिन्दम् शिश्रिजाडम्बने वने स जायसे मध्यमानः सहो महत्पामाहुः सह सस्पुत्रमङ्गिरः प्राग्दे बृहते यज्ञियाय ऋतस्य असुरायमन्म धृतम् न लग्न आस्ये ए सुतङ्गिरम् धने वृषभाय प्रतीची ऋतम् चिकित्व ऋतमिचिकिद्धृतस्य धारानुतृन्धिपूर्वीः नाहं यातुम् सहसा न ध्वजेन ऋतम् सपान्य ऋषस्य वेदामे देवरुतु पारुतो नाम्नाहम्पतिम् सनितुरस्य राजः के ते अग्ने रिपवे बन्धनासः के पायपः सनिषन्तद्युमन्ताः केधासिमग्ने अनृतस्य पान्तिक आसतो वचसः सन्ति गोपाः सखा आयस्ते विशुना अग्न एते शिवा सः सन्तो अशिवा अथोरुषदस्वयमेते वचोभिरजो यते मृदिनानि ब्रुवन्ताः कस्ते अग्ने नमसा यज्ञमेरतम् सपाहत्यरुषस्य वृष्णाः तस्य क्षयः पृथुरा साधुरे तु नहुषस्य शेषाः अर्चन्तस्वाहवामहेऽर्चन्तः समि धीमहि अर्घ्रे अर्चन्त ऊतये अग्ने स्तोमम् अनामहे सिद्धमद्यति विस्पृशाः देवस्य द्रविणस्य वाः अग्निर्द्विषतनो गिरो होतायो मानुषेष्वा स्रयक्षद्दै व्यञ्जनम् त्वमग्ने सप्रथा असि जुष्टो होतापरेण्यः त्वया आजज्ञम्बिदम्वते त्वामग्ने वाजसा तमम् विप्राः वर्धन्ति सुष्ठुतम् स नोरास्व सुवीर्यम् अग्नेमिरराङिव देवांस्त्वम् परिभूरसि आराधश्चित्रमृञ्जसे अग्निम् स्तोमेन बोधय समिधानो अमर्त्यम् हव्या देवेषु नो दधत् तमध्वरेश्व देवम् मर्ता अमर्त्यम् यजिष्ठम् मानुषे म् हि शश्वन्द ईळते सृजा देवम् घृतश्च्युताः अग्निम् भव्या जवोल्भवे अग्निर्जातो अरोचदघ्नन्दस्योञ्ज्योतिषातमाः अविन्दद्ग्रा अपस्वाः अग्निवीलेऽन्यम् कविम् घृतपृष्ठम् सपर्यत वेतु मे शृणवर्धवम् अग्निम् घृतेन वापृधस्तो मेभिर्विश्वदर्षणि स्वाधेभिर्वचस्युभिः रमेधसे कवयेवेद्यायगिरम्भरे यशसे पूर्ण्याय धृतप्रसत्तो असुरः सुशेवो राजो धर्ता धरुणो वस्वो अग्निः ऋतेन ऋतम् धरुणम् धारयन्त यज्ञस्य शाकेऽपरमे व्योमन् दिवो धर्मन् धरुणे से सेदुषोदृञ्जातैरजाताम् अभिजेन नक्षुः अम्भो युवस्तन्वस्तन्वतेऽपि वयो महद्दुष्टरम् ऊर्व्याय स सम्बतो नवजातस्तु तुर्यात्सिंहन्न क्रुद्धमभितः परिष्ठुः माते वयद्भरसेव प्रधानो जनम् जनन्धाय से चक्षसे च वयो वयोजरसे यद्दधानः परित्मनाविषुरूपो जिगासि वाजोऽनुतेशवसस्पात्पन्तमुरुन्दोघम् तरुणम् पदन्नतायुर्गुहादधानो महोराजे चितयन्नत्रिमस्पः बृहद्वयो हि भानवेऽर्चादेवायाग्मजे यम् मित्रम् न प्रशस्तिभिर्मर्ता सोदधिरे पुरः स हिद्युभिर्जनानाम्भोता दक्षस्य बाह्मोः विहव्यमग्निरानिषग्भगोनवारमृण्वति अस्य स्तोमे भगो नः सख्ये विश्वायस्मिन् तु विश्वणि समर्ये शुष्ममादधुः अथा ह्यग्न एषाम् सुवीर्यस्य मह्मना तमिद्यन्न रोदसी परिश्रवो बभूवतुः नो न एहि कार्यमग्ने गृणान आभर ये पय्ये च सूरयः स्वस्ति धामहे सचोतैति पृत्सुनो वृधे एवमर्त्य इत्थातव्याम् स मूतये अग्निम् कृते स्वधरे पूरुरीलीतापसे अस्य हि स्वयशस्तर आसापि धर्मन्मन्यसे तम् नाकम् चित्रशोचिषम् परो मनीषयाः अस्य वासा वु वर्तिषाय आयुक्ततुजा गिरा दिवो रेतसा बृहच्छोचन् चर्चयाः अस्य क्रत्वापि दस्मस्य वसुरथः अथा विश्वाः सुखं योग्निर्भिक्षु प्रशस्यते नो न इद्धिवार्यमासासन्तसूरजाः ऊर्जो न पादभिष्टये पाहि शग्धिः स्वस्तय उतैधिप्रत्सुनो मृधे प्रातरग्निः पुरप्रियो विशस्तपेतातिथिः विश्वानियो अमर्त्यो हव्यामर्तेः शुरण्यते विताय मृक्तवाहसे स्वस्य दक्षस्य ब्रह्मनाः इन्दुम् सधत्तः आदुषक्स्तोता चित्ते अमर्त्या तम्बो ओ दीर्घायुषो जिषङ्गिराहुवे मघो नाम् अरिष्टो येषाम् रथोऽव्यश्वदा वन्यीयते चित्रावायेषु दीधितिरासन्नुक्थापान्ति ये स्तीर्णम् बर्हि स्वर्णरेश्रवांसिदधिरे परि ये मे पञ्चाशतम् ददुरश्वानाम् सधस्फुते ुमद्रेमहिश्रवो बृहत्कृति मघोनाम् नुपदमतनृणाम् अभ्यवस्थाः प्रजायन्ते प्रभौरेर्पौरिश्चिकेत उपस्थे मातुर्वितष्टे धूरे विचितयन्तो निमिषम् द्रम्णम् वान्ति आ दृढाम् पुरम् विविशुः आश्वयित्रेयस्य जन्तवो निष्कग्रे एव बृहदुःख एनामध्वानवाजयोः प्रियम् दुग्धम् न काम्यमलामिराम्योः सदाः घर्मो न वाजलठरो दब्धः शश्वतो दभाः प्रीळन्मा तन्नो गीर्भिः श्रवाय्यन्दे भत्रापनजाजुजम् ये अग्ने निरयन्ति ते वृद्धा उग्रस्य शवसः अपर्वेषो अपह्वरो न्यव्रतस्य चिरे होता आरन्ता वृणीमहेऽज्ञे दक्षस्य साधनम् यज्ञेषु पूर्व्यम् गिराप्रयस्वन्तो हवामहे इत्था यथा आत ऊत ये सहसा मन्दिवे दिवे, दिवे राजदृताय सुक्रतो गोभिष्यामस धमादो वीरै स्यामस धनुष्मत्वानिधे महि मनुष्पत्समिधेमहि अग्ने मनुष्पदङ्गिरो देवान्दे एवयते यज त्वम् हिमानुषे जने सुप्रीत इध्यसे ए सृजस्त्वायन्त्यानुषक्सुजातसर्तिरासुते त्वाम् विश्वे ए सजोषसो देवासो दूतमक्रता पर्यन्तस्पाकवे यज्ञेषु देवमीणते देवम् वो देवयज्ञयाग्निमीलितमर्त्याः समिद्धः शुक्रदिकृतस्य यो निमासदः ससस्यजो निमासदः प्रविश्वसामन्न त्रिवदर्चाः पावकशोचिषे यो अद्भरेष्वेड्यो होता मन्दतमो विशि या अग्निम् जातवेदसन्दधाता देवमृत्विजम् प्रजज्ञये त्वानुषगद्य देवम् यदस्तमः कीर्तिन्मनसन्ता देवम् वर्ता स ऊतजे वरे एण्यस्य देवस इयानासो अमन्महि अग्ने लिगिध्या अस्य न तन्त्वा सुिप्रदम्बते स्तोमैर्वर्धन्त्यत्र योगीर्भिः विश्वायश्चीरभ्या आसा वाजेषु सा सहत् समग्ने प्रतनाशहम् रयिम् सत्यो अद्भुतो दातावाजस्य गोमरः विश्वे हि त्वा सजोषसो जनाः सो वृत्तवर्षिषः होतारम् सद्मसुप्रियम् ययन्ति अग्न एषु क्षयेष्मादेवन्नः शुक्रदेदिः द्युमत्पावक दी दीदिः अग्ने त्वन्नो अन्तम उत त्राता शिवो भवावरोध्याः वसुरग्निर्वसुश्रवा अच्छाः नक्षिद्युमत्तमम् मृजिन्दाः स नो बोधिश्रुधिहवमुष्याणो अघायतः समस्मात् तन्त्वाशोतिष्ठदेवः सुम्नाय नो न मे इमहे सखिभ्यः अच्छावो अग्निमवसे देवङ्गासि स नोमसोः रासत्पुत्ररुषोणामृता वा परिषदि द्विषः स हि सत्योऽयम् पूर्वे चिद्देवासश्चिद्यमेधिरे होतारम् मन्द्रजिह्वमित्स्व देतिभिर्विभावसुम् स नो दीतेवरिष्ठया श्रेष्ठया च सुमत्या अग्ने राजोऽधिदेहिनः सुवृत्तिभिर्वरेण्य अग्निर्देवेषु राजत्यग्निर्मर्त्येष्वामिषन् अग्निर्नोऽहम्यवाहनोऽग्निम् देभिः सफल्यत अग्निस्तुभिश्रवस्तमम् तु विब्रह्माणमुत्तमम् अतोर्तम् श्रावयत्पतिम् पुत्रम् ददाति दाशुषे अग्निर्ददाति सत्पदिम् सासाहयो युधा नृभिः अग्निरत्यम् रघुष्य सञ्जेतारमपराजितम् यद्बाहिष्ठन्तदग्नजे बृहदर्च विभावसो महिषी मत्मद्रयिस्तद्वाजा उदीरते तवद्युमन्तो अर्चजोऽग्रावेवोच्यते बृहत् उतो तेतम्यतुर्यथा स्वानो अर्थत्मना दिवः एव अग्निम्बसोऽयवः सह सारम्बवन्दिम सनो नो विश्वा अतिर्विषः स्पर्शन्नावेव सुक्रतूः अग्ने पावकरोचिषा मन्द्रया देवजिह्वया आदेवान्वक्षि यक्षि च तन्वाघृतस्नभीमहे चित्रभानो स्मर्दृशम् देवाङ्गावीतये मह वीतिहो त्वन्पाकवेद्युमन्तम् समिधीमहि अग्ने बृहन्तमध्वरे अग्ने देवे होता देवेभिर्हव्यदातये होतारन्त्वावृणीमहे यजमानाय सुन्मत आग्ने सुवीर्यम् वह देवैरासत्सि बर्हिषि समिधानः सहस्रजिदग्ने धर्माणि पुष्यसे देवानाम् दूत उक्षाः ज्ञा अग्निम् जातवेदसंहोत्रवाहञ्जविष्ठ्यम् तथा देवमृत्विजम् प्रयज्ञात्वानुषगद्या देवम् व्यजस्तमः स्त्रीतबर्हिरासदे एदम् मरुतोः अश्विनाः मित्रस्य एतम् तु देवा देवासः सर्वया विशा अनस्वन्ता सत्पनिर्मामहे मे गावाचे तिष्ठो असुरो मघो नाः श्रीकृष्णो अग्ने दशभिः सहस्रैर्वैश्वानरत्यरुणश्चिकेत योमे एषता च विंशतिम् च गो नाम् हरे च युक्ता सुष्टुतो ददाति वैश्वादरसुष्टुतो वावृधानोऽयच्छत्रियरुणाय शर्मा एवाते अग्ने सुमतिंच च कालो न विष्ठाय नवमन्त्रसदस्यो यो मे गिरस्तु विजातस्य पूर्वैर्युक्तेनाभित्र्यरुणो गृह्णाति व्योम इति प्रवोचत्यश्वमेधाय सूरजे दलदृशासनीयते तदन् मेधामृतायते यस्य मापरुषाश्रतमुद्धर्षयम् चुक्षणाः अश्वमेधस्य ददानाः सोमानि पत्र्या आशिरः इन्द्रा आग्नेश तदामुन्यश्वमेधे सुवीर्यम् क्षत्रन्धारयतम् बृहद्दिभिसौर्यमि समिद्धो अग्निर्दिविशो चिरश्रेत्प्रत्यङ्मुषसमुर्विजा विभाते एति प्राची विश्ववारा नमोऽभिर्देवाङ्गीलाना हविषाघृता चे समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तम् सजसे स्वस्तजे विश्वम् स धत्ते द्रविणञ्जमिन्वस्यातिथ्यमग्ने अग्ने शर्धमहते सौभगाय तद्युम्नान्युत्तमानि सन्तु सञ्जास्पत्यम् सुयममा ऋणेद्ब्रह्मौ यवाहनम् त्र्यर्यमा मनुषो देवता दात्रीरोचना दिव्या धारयन्त अर्चम् दित्वा मरुतः पूरदक्षास्त्वमेषा मृषिन्द्रासिधीराः अरु यदीम् मरुतो मन्दसा न मार्चन्निन्द्रम् पविवांसम् सुतस्य आदत्तवज्रमभियदहिंहन्नपो यस्मेरसृजत्सर्तवा ्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः तद्धि हव्यम् मनुषेगा अविन्नदहम् नहिम् पविवान् इन्द्रो अस्य आद्रोदसे पितरम् निष्कफा मृगङ्काः जिगर्तिमिन्द्रो अपजर्गुराणः प्रतिश्वसन्तमवदान ब्रह्मन् अथ कृत्वा मघवन्तुभ्यम् देवानुविश्वे अदतुः सोमपेयम् यत्सौर्यस्य हरितः पतम् देः पुरः सतीरुपरा एतशेकः न वयदस्य नवतिम् च वज्रेण मघवाभिपृश्चत् अर्चन्तेन्द्रम् मरुतः सधश्चेत्रैष्टुभेन पच सा बाधद्याम् सखा सख्ये अपचत्तोजमग्भिरस्य क्रत्वा महिषा त्रिशतानि त्रिशतमिन्द्रो मनुषः सरांसि सुतम् विपद्व्रत्र हत्याय सोमम् महिषा नामघोमा स्त्री सरांसि मघवा सोम्यापाः कारन्न विश्वे अह्वन्त देवाभरमिन्द्राय जी जघान कुशनायत्सहस्यैरङ्ग्रहोजुभिरश्वैः वन्वानो अत्र सरथञ यजाथेन वैरवनोर्ह सुष्णम् राण्यच्चक्रमबृहः सूर्यस्य कुत्सायान्यद्वरि वो जातवेकः अनासोदस्योङ्ग्रमृणोपथेनुर्योढ आवृणम् ऋभ्रवाचः स्तोमासस्वा गौरिवीतेरमर्धम् नरन्धयो वैदशिनाजपिप्लुम् आत्मा मृजिष्वा असख्याय चक्रेपचन् भक्तेरपि वः सोममस्य नग्वास सुदसो ओमास इन्द्रम् दशग्वासो अभ्यर्थम् तर्कैः गव्यन्ति दूर्वमपिधानवन्तम् तञ्चिन्दरश्य समाना अपौरन् रथोऽनुते परिचराणि विद्वान् वीर्यामघमन्या चकर्था या चो नव्याः कृणवशविष्ठ प्रेतुता ते एविदथे एषु एता विश्वा च क्रवाण्य भूर्यपरीतो जनुषा वीर्येह या चिन्नुवज्रिम् कृणवोदृश्वान्नते वर्तात विश्या अस्ति तस्याः इन्द्रब्रह्म क्रियमाणाजुषस्वजाते या अकर्म वस्त्रेव भद्रा सुकृतापसूयोरथम् न धीरस्वपादक्षम् क्वा अस्य वीरः को अपश्यदिन्द्रम् सुखरथमीयमानम् हरिभ्याम् यो राजा वज्रीसुरसोममिच्छन्त लोको गन्ता पुरुहूत ऊती अवार्यक्षम् पदमस्य सस्वरुग्रन्निधातुरन्वाजमिच्छन् अपृच्छमन्याम् उदते माहुरिन्द्रन्नरो प्रणुवयम् सुते जाते कृतानीन्द्रप्रवाहमजानि नोजुजोषः वेदत विद्वाञ्छृणवच्च विद्वान्वह तेजम् मघवा सर्वसेनः मनश्च कृषे जात इन्द्रवेषी देवो युतये भूयसश्चित् अस्मानन्दिच्छमसा विद्युतोऽपि विलोगवा मूर्वमुश्रियाणा परो यत्त्वम् परम आदनिष्ठाः परावतिश्रुत्यम् नाम बिभ्रत् अतश्चिरिन्द्रा रभयन्त देवा विश्वा अपो अजयद्दासपत्नीः तुभ्ये देते मरुतः अर्चं यर्कं तर्कम् सुन्वन्त्यन्धाः अहिमोहानमप आशया सम्प्रमायाभिम् स खलिन्द्राः विशो मृधो जनुषादानमिन्वन्दहवामघवन् नमुचे शिरोजतवर्तजो युजम् हि मामकृथा आदिन्द्रियो दासस्य नमुचेर्मथायन् अश्मानम् यत्स्वर्या अम्वर्तमानम् रजक्रिये वरोदसे मरुद्भ्याः श्रियो करन्न बला अस्य सेनाः अन्तर्यक्षदुभे अस्य धेने अथोपप्रैद्युधयेदस्युमिन्द्राः समत्र गावोभितो लवन्तेः सन्ता इन्द्रो असृजदस्य शाकैर्यदीम् सोमा सस्रुषु ता अमन्दन् यदीम् सोमा बभृतो ता अमन्दन्नरोषभः सादनेषु पुरन्दरः पपि वा इन्द्रो अस्य पुनर्गवामददातु श्रियाणा भद्रमिदम् वृषमा अग्ने अत्रङ्गवाम् चत्वारि तदतः सहस्राः ऋणञ्जयस्य प्रयतामघानि प्रत्यग्रभेष्मधृतमस्य नृणाम् सुपेशसंवासृजस्तङ्गवाम् सहस्रये ऋषमासो अग्ने तीव्रा इन्द्र मम मन्दः सुता सोक्तोर्युष्टौ चतुःसहस्रङ्गम् यस्य पश्वः प्रत्यग्रमेष्मऋषमेष्मग्ने घर्मश्चित्तप्तः प्रलुजेय आसेद यस्म यस्तम् वादामभिप्राः इन्द्रो रथाय प्रवतम् कृणोति यमध्यस्थान्मघवा वाजयन्तम् यूथेव वा पशोऽव्युनोति गोपारिष्टो याति प्रथमः सन् आप्रद्रवहरि वोमाविवे नः पिशङ्गराते अभिनः स अहिपदिन्द्रवस्यो अन्यदस्य मेनांश्चिजनिपतश्च कर्तात्सहस आजनिष्ठदे निष्ठ इन्द्र इन्द्रियाणि विश्वाः प्राचोदयत्सुदुघा वौरे अन्तर्विज्योतिषासम्भृत्पत्तमो वह अनवस्तेरथमश्वाजन्दष्टावज्रम् पुरो दद्युमन्तम् ब्रह्माण इन्द्रम् महयन्द्रो अर्कैरवर्धयन्नह जयहन्तो कृष्णे यत्ते वृषणो अर्कमर्चादिन्द्रग्रावाणो अदितिः स दोषाः श्वासो ये पपयो रथा इन्द्रे एता अभ्यवर्तन् तदस्योन् प्रते पूर्वाणि करणानि प्रणोतनामघमन्या चकर्था शक्ते एवो यद्विफला रोदसे उभे जयन्नपो मनवेदानुचित्राः तरिन्नुते करणन्दस्मभिप्राही शुष्णस्य चित्परि माया गृभणाः प्रवित्म्यन्नपदस्योङ्ग्रेधः त्वमपो यदवेदुःखाः पार इन्द्र उग्रमया तमवहो हुत्सम्भयद्वाशनानन्ददेवाः इन्द्रापुत्सा वहमानारथेना वा मत्या अपि कर्णे एवहन्तो निश्ये मध्योऽधमथो निःशस्तान् मघो नो हृतो परथस्तमांसे ुक्तान् सुयुजश्चिदशाम् कविश्चिदेजो अजगन्न पस्युः विश्वेते अत्र मरुतः सखाय इन्द्रब्रह्माणिदभिषेमवर्धन् सूरश्चिद्रसम्परितज्ञायाम् पूर्वङ्करदुपरञ्जोजुवांसम् भरच्चक्रमेतशत्सं वृणादि पुरोदधत्सनिसिक्रतुन्नः सुतसोममिच्छन् ्रावा वेदिम् भ्रिया तेजस्य जीरमद्भर्यवश्चलन्ति ये चाकनन्त चाकनन्तनो ते मर्ता अमृतमो ते अम्भारन्न वाृत तेषु धेह्यो योजनेषु येषु ते स्याम अदर्दनुत्सवसृजोभिधारित्वमर्णवान्वद्वधानाम् युतम् शया आनञ्जखन्वातमिषेमहतो निर्मृगस्य एकैदमकृतिर्मन्यमानः तस्मादन्यो अजनिष्टदौ यान क्यञ्चिदेषाम् सुरजा वदन्तम् विहो न पातुम् सुपृथन्त भोगा वृषः प्रभर्मादानवस्य भावम् वज्रेण वज्रे निलखानम् त्यञ्चिदस्य क्रतुभिर्निषत्तममर्मणोऽपिददिदस्य मर्म यदे सुक्षत्रप्रभृतामनस्य विदुत्सन्तम् तमसि धर्म्येधाः त्यञ्चिदित्था कत्पजंशया नम सूर्ये तमसि ृषभः सुतस्योच्चैरिन्द्रो अपकूर्या जघान उद्यदिन्द्रो अहते जवधर्यमिष्टसः अप्रतीतम् यते वज्रस्य प्रभृतौ ददा भविश्वस्य जन्तोरथमञ्चकारिदर्णम् मधुपंशया नमसिन्वम् वौरम् मह्यादधुग्रह अपारमत्रम् महता वधे न निदुर्योण आवृणम् को अस्य सुष्मन्तविषयम् वरात एको धना भरते अप्रतीतः इमे चिदस्य ज्रयसो नुदेवे इन्द्रस्य उजसोऽभियसा जिहाते यस्मै देवे स्वति निर्जिहीत इन्द्राजातुरुशती भजे मे संयदोजो युवते विष्णमाधिरयो नमन्त एकम् नुत्वा सत्पतिम्बाञ्च जन्यम् जातम् शृणोमिष सञ्जनेषु तन्मेश गर्भ्राशसोरमिष्ठम् दोषावस्तो रहवमानास इन्द्रम् एवाहित्वाृ तुथा यातयन्तम् मखाविप्रेभ्यो ददतम् शृणोमि किन्ते ब्रह्माणो गृहते सखा योजे त्वाजानि दधुः इति चतुर्थाष्टके प्रथमोऽध्यायः